मार्कण्डेयपुराणम् अध्यायं सिक्स् पक्षिण ऊचुः रामः पार्थे परां प्रीतिं ज्ञात्वा कृष्णस्य लाङ्गली चिन्तयामास बहुधा किं कृतं सुकृतं भवेत् कृष्णेन हि विनाहम् यास्ये दुर्योधनान्तिकं पाण्डवान् वा समाश्रित्य कथं दुर्योधनं नृपं जामातरं तथा शिष्यं खादयिष्ये नरेश्वरं तस्मान्न पार्थं यास्यामि नापि दुर्योधनं नृपम् तीर्थेष्वा प्रावयिष्यामि तावदात्मानमात्मना गुरूणां पाण्डवानां च इत्या कल्पते इत्यामन्द्रियकृषी केशं पार्थदुर्योधनावपि जगामद्वारकां शौर्यस्वसैन्युपरिवारितः गत्वा द्वारवतीं रामो हृष्टपुष्टजनाकुलां स्वो गन्धव्येषु तीर्थेषु पपौ पानं हलायुधः गत्वा द्वारवतीं रामो हृष्टपुष्टजनाकुलां स्वो गन्तव्येषु तीर्थेषु पपौ पानं हलायुधः पीतपानो जगामाध रैव्यानमृद्धिमद हस्ते गृहीत्वा समदां रेवदीमप्सरोपमां स्त्रीकदम्बगमध्यस्थो ययौ मत्तः पदास्खलन् ददर्श च वनं वीरो रमणीयमनुत्तमं सर्वर्तुफलपुष्पाढ्यं शाखामृगगणकुलं पुण्यं पद्मवनोपेदं सपल्लुलमहावनं प्रीदिजननान प्रीतिजननान् बहून्मदकलान् शुभान् श्रोत्ररम्यान् सुमधुरान् शब्दान् कखमुखेरितान् सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान् अपश्यत्पादपांस्तत्र विहगैरनुनादितान् आम्रानाम्रातकान् भव्यान् नारिकेलान् सदिन्दुकान् आविल्कांस्तथा जिरान् दाडिमान् बीजपुरकान् पनसान् लघुचान् मोचान् नीपांश्चादिमनोहरान् आरावतांश्च कङ्गोलान् नलिनानम्लवेदसान् भल्लाद लकां स्तिन्दुकांश्च महाफलान् इङ्गुदान् हरीतगविभीतकान् वेदानन्यांश्च सतरून् ददर्श यदुनन्दनः तथैवा शोकपुन्नाकखेदकी बहुलानथ शम्भकान् सप्तपर्णांश्च कर्णिकारान् समालधीन् पारिजातान् कोविदारान् मन्दारान् बदरांस्तथा पाडलान् पुष्पिदान् रम्यान् देवदारुद्रुमांस्तथा सालां स्थालां स्तमालांश्च किं शौकान् वञ्चुलान्वरान् चकोरैः शादपत्रैश्च शा, भृङ्गराजैस्तथाशुकैः शा कोकिलैः कलविङ्गैश्च हारीतैर्जोवजीवकैः प्रियपुत्रैश्चादकैश्च तधान्यैर्विविधैः खगैः श्रोत्ररम्यं सुमधुरम् कुजद्भिश्चाप्यधिष्ठितं सरां स्थितमनोज्ञान्यप्रसन्नसलिलानि च कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः कफ्लाहैः कमलैश्चापि आचितानि समन्ततः कादम्बैश्चक्रवाकैश्च तथा जलकुक्कु कारण्डवै प्लवसैकूर्मद्गु येर्ण समाजलचारी क्रमणेदम वनम शौरी मनोरमम् जगामानुगदस्त्रीभिर्लदागृहमनुत्तमं सददर्शद्विजांस्तत्र वेदवेदाङ्गपारगान् कौशिकान् भार्गवांश्चैव भरद्वाजान् सगौतमान् विविधेषु च सम्भूतान् शुद्विज सत्तमान, वंशेशुस कथाश्रवण बद्धोत्ष्टा मकत्सुच कृष्णाजिनोत्तरीषु कुशेषुचु सूतच तध्यस्थ कधयानं कथा शुभा पौराणिकी सुरर्षोणामाद्यानां चरिताश्रयाः दृष्ट्वा रामं द्विजाः सर्वे मधुपानारुणेक्षणं मत्तोऽयमिति मन्वाना समुत्थस्तुस्त्वरान्विताः पूजयन्तो हलधरमृते तं सुदवंशजं तदक्रोधसमाविष्टो हलीसूदं महाबलः निजका विवृत्ताक्षः क्षोभिदाशेषदानवः अध्यास्यादिपदं ब्राह्मं तस्मिन्सूदे निपादिते निष्प्रान्तास्ते द्विजाः सर्वे वनात् कृष्णाजिनाम्बराः अवधूतं तथात्मानं मन्यमानो हलायुधः चिन्तयामासुमहन्मया पापमिदं कृतं ब्राह्मं स्थानं गदोह्येष यत्सूतो विनिपादितः तथा हि मे द्विजा सर्वे मामवेक्ष्य विनिर्गताः शरीरस्य च मे गन्धो लोहस्येवा सुखावहः आत्मानञ्चावगच्छामि ब्रह्मघ्नमिव कुत्सितं धिगमर्षम् तथा मध्यमधिमानमभिरुदां यैराविष्ठेन सुमहन्मया पापमिदं कृतं तक्षयार्थं चरिष्यामिव्रतं द्वादशवार्षिकं स्वकर्मख्यापनं कुर्वं प्रायश्चित्तमनुत्तमम् अधयेयं समारब्धा तीर्थयात्रा मयाधुना येदामेव प्रयास्यामि प्रदिलो मां सरस्वतीं अधो जगाम रामोऽसौ प्रदिलो मां सरस्वतीं ततः परं शृणुष्वेमं पाण्डवेयकथाश्रयम् इति श्रीमार्कण्डेयपुराणे बलदेवब्रह्महत्या नाम षष्ठोऽध्यायः ओ